अथ एकोनत्रिंशदधिकद्विशततमोऽध्यायः वैशम्बायन उवाच ततः प्रज्वलिते वह्नौ शार्ङ्गकास्ते सुदुःखिताः व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणं निशम्य पुत्रकान् बालान् माता तपस्विनी जरिता शोकदुःखार्ता विललापसु जरितोवाच अयमग्निर्दहन् कक्षम् इत आयाति भीषणः जगत्सन्दीपयन् भीमो मम दुःखविवर्धनः इमे च मां कर्षयन्ति शिशवो मन्दचेतसः अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणाः लेलिहानो महेरुहान् अजातपक्षाश्च सुता न शक्ताः सरणे मम आदाय च न शक्नोमि पुत्रां स्तरितुमात्मना न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे कं तु जह्याम्यहं पुत्रं कमादाय व्रजाम्यहं किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् चिन्तयाना विमोक्षं वो नागच्छामि किञ्चन करिष्ये मरणं सः